ब्रह्माण्डपुराणं मध्यभागम् अध्यायं 74 फोर् वंशानुवर्णनं सूत उवाच तुर्वसोऽस्तु सुदो गोभानुरात्मजः गोभानोस्तु सुदो वीरस्त्रिसानुरपाजितः करन्थमस्तु त्रैसानो मरुत्तस्तस्य चात्मजः अन्यस्त्वा विज्ञितो राजा मरुत्थः कदितः अनपत्यो मरुत्स्तु स राजासीदिति श्रुतं दुष्कन्दं पौरवं चापि स वै एवं ययादिशापेन जरासंक्रमणे पुरा तुर्वसोःपौरवं वंशं प्रविवेश पुरा किला। दुष्कन्धस्य दु दायादस्सरूप्यो नाम पार्थिवः सरूप्यात्तु तथाण्डीरश्चत्वारस् तस्य चात्मजाः पाण्ड्यश्च केरलश्चैव चोलकुल्यस्तथैव च तेषां जनपदाकुल्याः पाण्ड्याश्चोलाः केरलाः द्रुह्योश्च तनयौ वीरौ बभ्रु सेतुश्च विश्रुतौ अरुद्ध सेतुपुत्रस्तु बाभ्रवो रिपुरुच्यते यौवनाश्विन समितौ कृच्छ्रेण निहदो बली युद्धं सुमहदासीतु मासान्परिचतुर्दश अरुद्धस्य तु दायादो गान्धारो नाम पार्थिवः ख्यायदे यस्य नाम्ना गान्धारविषयो महान् गान्धारादेशजाश्चापि तुरगावाजिनां वराः गान्धारपुत्रो धर्मस्तु धृतस्तस्य सुतोऽभवत् धृतस्य दुर्दमो जज्ञे प्रचेतास्तस्य चात्मजः प्रचे तसः पुत्रशदं राजानः सर्व एव ते म्लेच्च राष्ट्राधिपा सर्वे ह्युदीचीं दिशमास्थिताः अनौश्चैव सुधा वीरास्त्रयः परमधार्मिकाः सभा नरःकालचक्षुःपराक्षश्चेदि विश्रुताः सभानरस्य पुत्रस्तु विद्वान्कालानलो नृपः कालानलस्य धर्मात्मा सृञ्जयो नाम विश्रुतः भवत्पुत्रो वीरो नाम्ना पुरञ्जयः आसीदिन्द्रसमो राजा प्रतिष्ठितयशादिवि महा महामनास्ुतस्त महाशाल्ध धाक सप्तेशरो राजा चक्रवर्ती महायश महामनाव जनयामास विश्रुतौ उशी नर चर्म दिदीक्षु चाकं उसी नरस्य पत्न्यस्तु पञ्चराजर्षि वंशजाः नृगाकृमीनवदर्वा पञ्चमी च दृषद्वदी नरस्य पुत्र्यस्तु पञ्चतासु कुलोद्वहा तपस्य तस्सुमहतो वृद्धस्य चादावृद्ध धाकाृगात्रो नवाया नवएवत कृम्य कृमिस्तु दर्वाया सुव्रदो नाम धाकृष्व सुतचा शिबिरशी नरोजा शिवे शिवपुरं ख्यातं यौधेयं तु नृगस्य च नवस्य नवराष्ट्रं तु कृमेस्तु कृमिलापुरी पुरी सुव्रतस्य तद्धाम्भष्टा शिबिपुत्रान्निबोधत शिवेस्तु शिवयः पुत्राश्चत्वारो लोकसम्मताः पृषदर्भसुवीरस्तु केकयो मद्रकस्तथा तेषां जनपदा स्पीधा केकया मद्रकास्तथा पृषदर्भासुवीराश्च तिदिक्षोशृणुद प्रजाः तिदिक्षुरभवद्राजा पूर्वस्यां दिशि विश्रुतः कुशरथो महाबाकुस्त हेमसुदोव हेम हेमस्य सुतपाजे सुत सुतो बलि जादो मनुष्ययोन्याम वैक्षीणे वंशे प्रजेपया महायोगी सदु बलिर्ब्ध य महामनाः पुत्रानुत्पादयामासुर्वर्ण्यकरान् भुवि अङ्गं स जनयामास वङ्गं सुह्मं तथैव युद्धं कलिङ्गं च तथा वालेयं क्षत्रमुच्यते वालेया ब्राह्मणाश्चैव तंशकरा प्रभो बले ब्रह्मण दत्ता वरा प्रीतेन धीमद महायोगिवयु संग्रामे से पीमाणक धर्मे चैव प्रभावतः त्रैलोक्यदर्शनं चैव प्राधान्यं प्रसवे तथा बलेश्चाप्रतिमत्वं वे धर्मतत्त्वार्थदर्शनं चतुरो नियतान्वर्णांस्त्वं वै स्थापयिते दिवै इत्युक्तो विभुना राजा बलिशान्तिपराययौ आलेन महदा विद्वान् स्वं च स्थानमुपागतः तेषां जनपदा स्वीदा अङ्गवङ्गाश्च सुह्मकाः पुण्ढ्राकलिङ्गश्च तथा तेषां वंशं निबोधत तस्य ते, ते निबो तनया सर्वे क्षेत्रजा मुनिसम्भवाः सम्भुदा दीर्घतमसुदेष्णायां महौजसः ऋषय ऊचुः कथं बले सुताः पञ्च जनिताः क्षेत्रजाः प्रभो ऋषिणा दीर्घतमः सादत्प्रब्रूहि पृच्छताम् सुत उवाच उशिजो नाम विख्यात आसीद्धीमान् ऋषिः पुरा भार्या वै ममदा नाम बभूवास्य महात्मनः उशिजस्य कनीयांस्तु पुरोधायो दिवौकसाम् बृहस्पतिर्बृहतेजा ममतां सोऽभ्यपद्यद उवाच ममतां तु बृहस्पतिमनिच्छति अन्तर्वत्न्यस्मितेभ्रादुर्जेष्टस्यास्य च भामिनी अयं हि मे महान् गर्भो रोरवीदि बृहस्पदे अजस्रं ब्रह्मचाभ्यस्य षडङ्गं वेदमुद्गिरन् अमोकरेतास्त्वं चापि नमाम् मां भजितुमर्हसि अस्मिन्नेव यथाकाले काले यदा वा मन्यसे विभो एवमुक्तया सम्यक् बृहतेजा बृहस्पतिः कामात्मानं महात्मापि नात्मानं सोऽभ्यधारयद सम्बभूवैव धर्मात्मा तया सार्धं बृहस्पति तदारेदो गर्भस्तसोऽस्य भाषत शुक्रं त्याक्षिश्च माजीवद्वयोर्नेहास्तिसम्भवः अमोकरेतास्त्वं वापि पूर्वं चाकमिहागतः शशापथं तदा क्रुद्ध एवमुक्तो बृहस्पतिः उशिजस्य सुतं भ्रा भगवान् ऋषिः यस्मात्त्वमीदृशे काले सर्वभूतेऽप्सिते सति मामेवमुक्तवान्मोहात्तमो दीर्घं ग्रवेष्यसि ततो दीर्घतमानाम शापादृशिरजायत अधौ शिजो बृहत्कीर्तिर्बृहस्पदिरिभौ जसा ऊर्ध्वरेधास्ततश्चापि न्यवसद्भ्रातुराश्रमे गोधर्मं सौरभेयात् पृषभाच्छतवान् प्रभोः तस्य भ्रातापि द्रुव्यस्तु चकारभवनं तदा तस्मिन् हि तत्र वसदि यदृच्छाभ्यागदो वृषः दर्शार्थमास्तृतान्तर्भाञ्चचार सुरभिसुतः जग्राह तं दीर्घतमा विस्फुरन्दं तु श्रृङ्गयोः स तेन निगृहीतस्तु न चचाल पदात्पदं तदो ब्रवीद्धृषस्तं वै सुञ्च मां बलिनां वरा न मया साधितस्ताद बलवांस्तद्विध क्वचिद त्र्यम्बगं वहदा देवं यदो जातोऽस्मि भूतले सुञ्चमां बलिनां श्रेष्ठप्रदिस्नेहं वरं वृणु एवमुक् कुतो ब्रवीदेनं जीवं त्वं मे क्व यास्यसि तेनत्वाहं न मोक्ष्यामि परस्वादं चतुष्पदं ततस्तं दीर्घतमसं सवृषःप्रत्युवाचः नास्माकं विद्यते तादपातकं पातकं च भक्ष्या भक्ष्यं न जानीमः पेया पेयं सर्वशः कार्याकार्यं च वै विप्र गम्यगम्यं तथैव च न पाप् मा नो वयं गवाम ह्येष गवां श्रुतः गवां नाम सवे श्रुत्वा सम्भ्रान्तस्तममुञ्जद भक्त्या चानुश्रविकया गोसुदं वै प्रसादयन् प्रसाददो वृषेन्द्रस्य गोधर्मं जगृहेथ सः मनसैव तदा दध्रे तद्विधस्तत्परायणः सदो यवीयसपत्नी मौतध्यस्याभ्यमन्यत विचेष्टमानां रुदतीं दैवात् सम्मूढचेतनः अवलेपं तु तं मत्वा सुरध्वांस्तस्य नाक्षमद गोधर्मवैबलं कृत्वा स्नुषां सह्यभ्यमन्य विपर्ययं तुदं दृष्ट्वा शरद्वान् प्रविचिन्त्य भाविष्यमार्थं भविष्यमर्थं ज्ञात्वा च महात्मात्ववमद्यतं प्रोवाच दीर्घतमसं क्रोधात् संरक्तलोचनः गम्यागम्यं न जानीषे गोधर्मात् प्रार्थयन्स्रुषां दुर्वृत्तं त्वां त्यजाम्येश गच्छत्त्वं स्वेन कर्मणा यस्मात्त्वमन्धो वृद्धश्च भर्तव्यो दुरनुष्ठितः तेनासि त्वं परित्यक्तो दुराचारोऽसि मे मदः शूद उवाच कर्मण्यस्मिंस्तद क्रूरे तस्य बुद्धिरजायद निर्भ्य चैव बहुशो बाहुभ्यां परिगृह्य कोष्ठे समुद्रे प्रक्षिप्य भसि समुत्सृजद उख्यमान समुद्रस्तु सप्ताहं श्रोदसा तदा तं सस्त्री बलिर्नाम राजा धर्मार्थतत्त्वविदत् अपश्यन्मज्जमानं तु श्रोतः सोऽभ्या समागतं तं गृहीत्वा स धर्मात्मा बलिर्वैरोचनस्तदा अन्तःपुरे युगोपैनं तर्पयन् प्रीतः स वै चन्दयामास वै बलिं तस्माद्ध्वरं वव्रे पुत्रार्थी दानवर्षभः बलिरुवाच सन्तानार्थं महाभाग आर्यायां मम मानद पुत्रान्धर्मार्थसंयुक्तानुत्पादयितुमर्हसि एवमुक्तस्तु दे नर्षिस् तथास्त्वित्युक्तवान् हितं सुदेष्णां नाम भार्यां स्वां राजास्मै प्राहिणोत्तदा अंधं वृद्धं चदं दृष्ट्वा न सा देवी जगामः स्वां च धात्रेयिकां तस्मै भूषयित्वा व्यसर्जयद कक्षी व चक्षुषौ तस्यां शूद्रयोन्यामृषिर्वशी जनयामास धर्मात्मा पुत्रवेदौ महौजसौ कक्षी व चक्षुषौ तौदु दृष्ट्वा राजा बलिस्तदा अधीतौ विधिवत् ीश्वरौ ब्रह्मवादिनौ सिद्धौ प्रत्यक्षधर्माणौ बुद्धौ श्रेष्ठदमावपि ममैता विदिहोवाच विधिहोवाच बलिर्वैरोचनस्त्वर्षिं नेत्युवाच ततस्तं तु ममैता विधि उत्पन्नौ शूद्रयो नौतु तु भवदहक्ष्मा सुरोत्तमौ अंधं वृद्धं च मां मत्वा सुदेष्णा महिषी तव प्राकिनोदवमानीय शूद्रीं धात्रेयिकां मम ततः प्रसादयामास पुनस्तमृषिसत्तमं बलिर्भार्यां सुदेष्णा च भत्सयामास वैप्रभुः पुनश्चैनामलङ्कृत्य ऋषये प्रत्यपादयत् तान् स दीर्घदमादेवी मब्रवीद्यदि शुभे दध्ना लवणमिश्रेणस्वभ्यक्तं नग्नकं तथा लेखिष्यस्य जुगुप्सन्दिह्या पादतलमस्तकं तदस्त्वं प्राप्स्य से देवि पुत्रांश्च मनसेप्सि तस्य सा देवी सर्वं कृतवती तथा अपानं च समासाद्य जुगुप्सन्धिर्जयद तमुवाच तदसर्शिर्यस्ते परिहृदं शुभे विनापानं कुमारं त्वं जनयिष्यसि पूर्वजं तदस्थं दीर्घतमस्सं सादेवी देवी प्रत्युवाचः नार्हसि महाभाग पुत्रं दातुं ममे दृश्यं ऋषिरुवाच तवा परधो देव्येष नान्यथा भविता तु वै देवी दृश्यं च दे पौत्रमहं दास्यामि सुप्रदे तस्यापानं विना चैव योग्यभावो भविष्यति तां स दीर्घतमाश्चैव कुक्षौ स्पृष्ट्वदमब्रवीद प्राशिदं दधि यत्तेद्य मम शुचिस्मिदे ेन दे पुरिदो गर्भः पौर्णमास्यामि बोधधिः भविष्यन्ति कुमारास्ते पञ्चदेवसुधोपमाः तेजस्विनः पराक्रान्ताय ज्वानो धार्मिकास्तथा तदोङ्गस्तु सुतेष्णाया ज्येष्ठपुत्रो वंगस्तु पुण्र सुक्म तथाजस्तु पंचईते बलेहे क्षेत्र भवदा दीर्घतमसा बलत्ता सुता पुरा प्रजाच्युपहदास्तस्य ब्रह्मणा कारणं प्रति अपत्यमस्य दारेषु स्वेषु मा भून्महात्मनः हा। तदो मनुष्ययोन्यां वै जनयामास स प्रजाः सुरभिर्दीर्घतमः स मथप्रीदो वचो विचाल्य यस्मात् गोधर्मं त्वमेवं कृतवानसि भक्त्या चानन्ययास्मासु मुने प्रीतास्मि तेन ते तस्मात् तव तमो दीर्घं निस्तदाम्यद्य पश्य वै बार्हस्पत्यं च यत्तेऽन्यत्पापं संतिष्ठदे तनौ जरा मृत्युभयं चैव ह्याख्राय प्रणुदामि ते आह्रादमात्रो सा पश्य सद्यस्तमसि नाशिते आयुष्मांश्च युवाचैव चक्षुष्मांश्च तदोभवद गवा हृदतमासोऽथ गौतमः समपद्यदा कक्षीवांस्तु तदोगत्वा सह पित्रा गिरिव्रजं यथोद्दिष्टं हि पित्राथ चचार विपुलं तपः ततःकालेन महदा तपसा भाविदस्स वै विधूय सानुजो दोषान्ब्राह्मण्यं प्राप्तवान् प्रभुः तदो ब्रवीत् पितात्वेन पुत्रवानस्म्यहं प्रभो सुपुत्रेण त्वया ताद कृतार्थश्च यशस्विना युक्तात्मानं तदशोधप्राप्तवान् ब्रह्मणः क्षयम् ब्राह्मण्यं प्राप्य कक्षीवान् सहस्रमसृजत्सुतान् कुष्माण्डा गौतमास्ते वै स्मृताः कक्षी दीर्घतमसो बलेर्वैरोचनस्य वै समागमः समाख्यादः संतानश्चोभयोस्तथा बलिस्तानभिषृच्येह पञ्चपुत्रा न योगात्मा योगमाश्रित्य च प्रभुः अदृश्यः सर्वभूतानां चरत्युद तत्राङ्गस्य राजर्षे राजासिद्धधिवाहनः सोऽपराधास् सुदेष्णाय अनपानो भवन्नृपः अनपानस्य पुत्रस्तु राजा दिविरधस्मृतः पुत्रो दिवीथ सी दिद्वान्धर्मरथो नृप ये ये कव प्रोक्ता भविताकलौयुगे जादा महावीर्य जा महवीर्यपराक्रम शूरात सत्यसम्दा जितेन्द्रियाः अत्राणु नु वंश्लोकोऽयं रुदाकृतः इक्ष्वा गुणामयं वंश्यसुमित्रान्तो भविष्यति सुमित्रं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ इत्ये इत्येतन्मानवं क्षत्रमैलं च समुदादृतम् अधऊर्ध्वं प्रवक्ष्यामि मगधोयो यो बृहद्रथः जरा सम्धस्य एवंशे सह देवान्वये नृपाः अधीता वर्तमानाश्च भविष्याश्च तथा पुनः प्राधान्यथः प्रवक्ष्यामि गददो मे निबोधत सङ्ग्रामे भारते तस्मिन् सह देवो निपातितः सोमापिस्तस्य तनयो राजर्षिः स गिरिव्रजे पञ्चाशतं तथाष्टौ समाराज्यमकारयद श्रुतश्रवासप्तषष्टिः समास्तस्य सुदो भवद अयुधायुस्तुषड्विंशद्राज्यं वर्षाण्यकारयद समाश्यदं निरामित्रो महीं भुक्त्वा दिवं गतः पञ्चाशदम् समा षट् च सुक्षत्रप्राप्तवान्महीं त्रयोविंशत् बृहत्कर्मा राज्यं वर्षाण्यकारयद सेनाजित्साम्प्रतं चापि यदा वै भोक्ष्यते समाः श्रुदञ्जयस्तु वर्षाणि चत्वारिंशद्भविष्यति महाबुद्धि पुंजो महाबाकुर्महाबुद्धिपराक्रम पंच वर्षा महीम पालयता नृप अष्टाशत जाशुचि अष्टाशत्समूर्ण क्षेम राज भविष्य सुव्रतस्तु चतुष्ठिराज्यम प्राप्त वीर्यवान्न पंचवर्षा पूर्णी धर्मनेविष्य भोक्ष्य नृपतिश्चे मा अष्टाशत सह अष्टिश्रम सुश्रमस्य भविष्यति चत्वारिंशत् दशाष्टौ च दृढसेनो भविष्यति त्रयस्त्रिंशत् वर्षाणि सुमति प्राप्स्यते तदः चत्वारिंशत् समाराजा सुनेत्रो भोक्ष्यदे तदः सत्यजित् पृथिवीराष्ट्रं त्र्यशीतिं भोक्ष्यदे समाः प्राप्येमं विश्वाजिच्चापि पञ्चविंशत् भविष्यति अरिञ्जयस्तु वर्षाणां पञ्चाशत् महीं द्वाविंशच्च नृपाह्यदे भवितारो बृहद्रथाः पूर्मं वर्षसहस्रं वै तेषां राज्यं भविष्यदि बृहद्रदेष्वदितेषु वीरहन्त्रिष्वर्तिषु शुनकस्वामिनं हत्वा पुत्रं समभिषेक्ष्यति मिषदां क्षत्रियाणां हि प्रद्योतिं नृपतिं बलाद् स वै प्रणदसामन्दो भविष्येण प्रवर्तितः त्रयोविंशत्समाराजा भविता स नरोत्तमः चद्विंशत्समाराजा पालको भविता ततः विशाखयूपो भविता नृपः पञ्चाशतं समाः एकविंशत्समाराज्यमचकस्य भविष्यति भविष्यति समा विंशत्तत्सुतो नन्दिवर्धनः अष्टत्रिंशदम् भाव्या द्योदाः पञ्चते नृपाः अत्वा तेषां यशकृष्णं शिशुनागो भविष्यति वाराणस्यां सुतस्तस्य संयास्यति गिरिव्रजं शिशुनागश्च वर्षाणि चत्वारिंशद्भविष्यति काकवर्णः सुतस्तस्य पट्त्रिंशत् च भविष्यति ततस्तु विंशतिं राजा क्षेमधर्मा भविष्यति चत्वारिंशत् समाराष्ट्रं क्षत्रौ जाः प्राप्स्यते तदः अष्टत्रिंशत् विधिसारो भविष्यति अजादशत्रोर्भविता पञ्च विंशत स नृप्रिश दर्भकस्तु भविष्य उदयी भवितायिशनृपुरवरम राज्य कुसुम गगाया दक्षिणे कूले चतुर्थे कारिष्यति चत्वारिशत्समाभाव्यो राजा वै नन्दिवर्धनः चत्वारिशत्त्रयश्चैव सः नन्दिर्भविष्यति भविष्यन्ति च वर्षाणि षष्ट्युत्तरशतत्रयं शिशुनागादशैवजानः क्षत्रबन्धवः येदैः भविष्यन्ति तावत्कालं नृभाः परे येक्ष्वाकवश्चतुर्विंशत्पञ्चालाः पञ्चविंशतिः पंजा कालकास्तु चतुर्विंशचतुर्विंशत्तु है हयाः द्वात्रिंशदेकलिङ्गास्तु पञ्चविंशत्तशकाः गुरवश्चापि षट्त्रिंशदष्टाविंशति मैथिलाः शूरसेनास्त्रयोविंशद्विधिहोत्राश्च विंशतिः तुल्यकालं भविष्यन्ति सर्वं एवमहीक्षितः महानन्दिसुतश्चापि शूद्राया कालसंवृतः उत्पत्स्यते महापद्मस्सर्वक्षत्रान्धकृन्नृपः तदः प्रभृति राजानो भविष्यशूद्रयो नयः एकराक्षमहापद्म एकचत्रो भविष्यति अष्टाशीतितुवर्षाणि पृथिवीं पालयिष्यति सर्वक्षत्रं समुद्धृत्य भाविनोर्ध्वस्य वैबलाद् तत्पश्चात् तत्सुदाह्यष्टौ समाद्वादशते नृपाः महापद्मस्य पर्याये भविष्यन्ति नृपाक्रमाद उद्धरिष्यति तान् सर्वान् कौडिल्यो वै द्विजर्षभः भुक्त्वा महीं वर्षशतं नरेन्द्र स भविष्यति चन्द्रगुप्तं नृपं राज्ये कौडिल्यस्थापयिष्यति चतुर्विंशत्समाराजा चन्द्रगुप्तो भविष्यति भविता भद्रसारस्तु पञ्चविंशत्समानृपः षट्त्रिंशत्तु समराजा अशोकानां च तृप्तिदः तस्य पुत्रकुलालस्तु वर्षाण्यष्टौ भविष्यति कुशालसूनुरष्टौ च भोक्ता बन्धुपालितः बन्धुपालितदायादो भविता चेन्द्रपालितः भविता सप्तवर्षाणि देववर्मा नराधिपः राजा शतधनुश्चापि तस्य पुत्रो भविष्यति बृहद्रथश्च वर्षाणि सप्त वै भविता नृपः इत्येते नवमौर्या वै भोक्ष्यन्दिजवसुन्धरां सप्तत्रिंशच्छदम्पूर्णं तेभ्यः शृङ्गो गमिष्यदी पुष्पमित्रस्तु सेनानी सेनानीरुद्धृत्यधु बृहद्रथं कारयिष्यदि वैराज्यं समाषष्टिं सचैवतु अग्निमित्रो नृप्चाष्टौ भविष्य सामनृप भविताचा शु्येष्ट सतवर्षा वै तद वसुमिस्तो भाव्यो दशवर्षा पार्थिव तदो भद्रे धो भविष्य नृप्च वै समास्तस्मातिस्र तिस्र एव राजा घोषस्ततश्चापि वर्षाणि भविता त्रयः सप्त वैवज्रमित्रंस्तु समा राजा ततः पुनः द्वात्रिंशद्भविता वापि समा भागवतो नृपः भविष्यति सुधस्तस्य देवभूमिस्समादश दशैदे शृङ्गराजानो भोक्ष्यन्तीमां वसुन्धरां शतं पूर्वं दशद्वेज तेभ्यः कण्वं अमात्यो वसुदेवस्तु बाल्याद्व्यसनिनं नृपम् देवभूमिं तदो हत्वा शृङ्गेषु भविता नृपः भविष्यति स मराजा पञ्च कण्वायनस्तु सः भूमिमित्रसुधस्तस्य चतुर्विंशद्भविष्यति भविता द्वादशसमास्तस्मान्नारायणो नृपः सुशर्मा तत्सुतश्चापि भविष्यति चतुस्समाः कण्वायनास्तु चत्वारश्चत्वारिंशच्च पञ्च च समाभोक्ष्यन्ति पृथिवीं पुनरन्ध्रान् गमिष्यति कण्वायनमधोद्धृत्य सुशर्माणं प्रसह्यतम् सिन्धुको ह्यन्धजातीय प्राप्स्यतीमां वसुन्धरां त्रयोविंशत्समराजा सिन्धुको भविता त्वथा कृष्णो भ्रा दास्य वर्षाणि सोऽस्माद्दश भविष्यति श्रीशान्तकर्णिर्भविता तस्य पुत्रस्तु वै महान् पञ्चाशत्तु समाच् च शान्तकर्णिर्भविष्यति आपोलवोद्वादश वै तस्य पुत्रो भविष्यति चतुर्विंशत्तु वर्षाणि पडुमांश्च भविष्यति भवितानिष्टकर्मादु वर्षाणाम् पञ्चविंशतिं तदस्संवत्सरं पूर्णं हालो राजा भविष्यति नाम भविष्यदि महाबलः भाव्यः पुरीषभीरुस्तु समासोऽप्येकविंशतिं साधकर्णिर्वर्षमेकं भविष्यति नराधिपः अष्टविंशतिवर्षाणि शिवस्वातिर्भविष्यति राजा च गौतमी पुत्र समानृपः एकविंशतिसमानृपः एकोनविंशतिराजा यज्ञश्रीशादकर्ण्यथा षडेव भवितात् समाद्विजयस्तु समानृपः देडस् श्रीशादकर्णी च तस्य पुत्रः समास्त्रयः कुलो मारिसमाशब्द ततश्चैषा भविष्यति इत्येते वै नृपास्त्रिंशद्दन्ध्रा भोक्ष्यन्ति वै महीं समाशतानि चत्वारि षट् तथैव च अन्ध्राणां संस्थिताः पञ्च तेषां वंश्याश्च ये भविष्यन्ति दशाभिरास्ततो नृपाः सप्त गर्दभिनश्चापि ततोऽध दशवैषकाः यवनाष्ठौ भविष्यन्ति तुषारास्तु चतुर्दश त्रयोदश गुरुण्डाश्च मौनाह्येकादशैव अन्ध्रा भोक्ष्यन्दिवसुधां सदे द्वे च शतं च वै सप्तषष्टिं च वर्षाणि दशाभिरास्तदो नृपाः सप्त गर्दभिनश्चैव भोक्ष्यन्दीमां द्विसप्ततिं शतानि त्रीण्यशीतिं च भोक्ष्यन्ति वसुधां शकाः आशीतिद्वेजवर्षाणि भोक्तारो यवनामहीं पञ्चवर्षशतानीह तुषाराणां महि शन्य दुर्ता दश गुरुंठा वृषल साध्यंजा शीण भोक्ष्य मौना दशुचिषु काल नध किल किलो नृप तथक् किल किलेभ्यश्च विन्ध्यशक्तिर्भविष्यति समाण्णवधिं चैव पृथिवीं तु समेष्यति नृपान्वैदिशकांश्चाथ भविष्यांस्तु निबोधत शेषस्य नागराजस्य पुत्रसुरपुरञ्जयः भोगी भविष्यदे राजा नृपो नाककुलोद्वहः सदा चन्द्रस्तु चन्द्राशुर्द्विधीयो नखवांस्तथा धनधर्मा तदश्चापि चतुर्थो वंशजस्मृतः भूदिनन्दस्तदश्चापि वै दिश्येदुभविष्यति तस्य भ्राताय वीयांस्तु नाम्ना नन्दियशा किल तस्यान्वयो भविष्यन्ति राजानस्ते त्रयस्तु वै दैहित्रशिशिको नाम पूरिकायां नृपोऽ भवद विन्द्य शक्रिसुधश्चापि प्रवीरो नाम वीर्यवान् भोक्ष्यते च समाषष्ठीं पुरीं काञ्चन कांच यक्ष्यदे यक्ष्यते वाजपेयैश्च समाप्तवरदक्षिणैः तस्य पुत्रास्तु चत्वारो भविष्यन्ति नराधिपाः विन्ध्यकानां कुलानां ते नृपा वैवाहिकास्त्रयः सुप्रतीको गभीरश्च समाभोक्ष्यदि विंशतिं शङ्कमानो भवद्राजा महिषीणां महीपतिः पुष्पमित्रा भविष्यन्ति षट् त्रिमित्रा त्रयोदश मेखलायां नृपाः सप्त भविष्यन्ति च सप्ततिः कोमलायां तु राजानो भविष्यन्ति महाबलाः मेखा इति समाख्यादा बुद्धिमन्दो न नई श्रा पार्थिवा सर्वे भ्यामुक्षवंश प्रसूतास्ते वीर्यवंदो महाबला मगधा महवी विश्वस्र्भवष्य उत्साह पार्थिवान्वान्या वर्णा क्य कैवर्तान् मद्रगांश्चेव पुलिन्तान् ब्राह्मणांस्तथा स्थापयिष्यन्ति गजानो नानादेशेषु ते जनान् विश्व स्वानिर्महासत्वो युद्धे विष्णुसमप्रभः विश्वस्वानिर्नरपधिक्लीबतिरिवोच्यते उत्सादयित्वा क्षत्रं तु क्षत्रमन्यत् करिष्यति नवनागास्तु भोक्ष्यति पुरीं चम्पावधीं नृपाः मधुरां च पुरारम्यां नागा भोक्ष्यन्ति सप्त अनु गङ्गाप्रयागं च साकेदं मगधांस्तथा वेदाञ्चनपदान् सर्वान् भोक्ष्यन्ते सप्तवंशजाः नैष धान्यदुगांश्चैव शैषितान् कालतोयगान् वेदाञ्चनपदान् सर्वान् भोक्ष्यन्ते मणिधान्यजान् कोशलांश्चान्द्रपैण्ड्रांश्च ताम्रलिप्तान् ससागरान् चम्पाश्चैव पुरीं रम्यां देव रक्षिताः कलिङ्गा महिषाश्चैव महेन्द्रनिलयाश्च ये जनपदान् सर्वान् पालयिष्यति वै त्रिराष्ट्रभोचकांश्चैव भोक्ष्यदे कनकाह्वयः तुल्यकालं भविष्यन्ति सर्वे ह्यदे महीक्षितः अल्पप्रसादा ह्यनृता महाक्रोधा ह्यधार्मिकाः भविष्यन्तिह यवना धर्मधः कामतोर्धतः नैव मूर्धाभिषिक्तास्ते भविष्यन्ति नराधिपाः युगदोषदुराचारा भविष्यन्ति नृपास्तु ते भविष्यन्तिह पयाये कालेन वृद्धिवीक्षितः विहीनास्तु भविष्यन्ति धर्मदः तैर्विमिश्रा जनपदाम्लेच्छाचाराश्च सर्वशः विपर्ययेण वर्धन्ते नाशायिष्यन्ति वै प्रजाः लुब्धा अनृतवाचश्च भवितारस्तदा नृपाः तेषां वर्तति बहुस्त्रीके युगे तदा लवाल्लवम् ब्रश्यमाना भ्रश्यमाना आयुरूपबलश्रुतैः तथा गदासु वैकाष्ठं प्रजासु जगदीश्वराः राजानः सम्प्रणश्यति काले नोपहदास्तदा कल्किना व्याहदा सर्वे म्लयच्छ यास्यन्ति संक्षयम् अधार्मिकाश्च अर्मका पाखंडाशन नृप्याशिष्टे कलवयुगे किंचिच्छिष्टा प्रजास्ता वै धर्मे हा असाधना हदस्वास््च व्याधिशोकनिपीडिताः अनावृष्टिहदाश्चैव परस्परवधेन च अनाधाराः परित्रस्ता वार्तामुत्सृज्य दुःखिताः त्यक्त्वा पुराणि ग्रामांश्च भविष्यन्ति वनौकसः एवं रूपेषु नष्टेषु प्रजा गृहान्निधु नष्टे स्नेहे दुरापन्ना भ्रष्टस्नेहासुहृज्जनः वर्णाश्रमपरिभ्रष्टाः शङ्करं घोरमास्थिताः सरित्पर्वतसेविन्यो भविष्यन्ति प्रजास्तदा सरिदस् सागरानूपान् सेवन्ते पर्वतानथ अङ्गान् कलिङ्गान् वङ्गांश्च काश्मीरान् काशिकोशलान् ऋषिकान्दा गिरिद्रोणी संश्रयिष्यन्ति मानवाः कृष्णं हिमवदः पृष्ठं कूलं च लवणाम्भसः अरण्यमभि पश्यन्दे आर्याम्लेच्छ जनैः सह मृगैर्मीनैर्विहङ्गैश्चपदैश्चेक्षुभिस्तथा मधुशाकफलैर्मूलैर्वर्तयिष्यन्ति मानवाः चीरं पर्णं च विविधं वल्कलान्यजिनानि च स्वयं कृत्वा पिधास्यन्ति यथा मुनिजनस्तथा बीजान्नानि तथा निम्नेष्काष्ठशङ्घुभिः अजैडगं खरोष्ट्रं च पालयिष्यन्ति यत्नदः नदीर्वत्स्यन्ति तोयार्थे नूनमाश्रित्य मानवाः पार्थिवा व्यवहारेण विबाधन्ते परस्परं बहुमान्याः प्रजाहीनाः शौचाचारविवर्जिताः एवं भविष्यन्ति नरास्तदा धर्मव्यवस्थिताः हीनान् दीनां तथा धर्मान् प्रजा समनुवर्त्स्यति आयुस्तदा त्रयो विंशन्न कश्चिदधिवर्तते दुर्बला विषयग्लाना जराया संपरिप्लुताः पत्रमूल सम्परिप्लुताः पत्रमूलफलाहाराश्चिर कृष्णाजिनाम्बराः वृत्त्यर्थमभिलिप्स्यन्तश्चरिष्यन्ति वसुन्धरम् एतत्कालमनुप्राप्तास् प्रजा कलियुगान्तके क्षीणे कलियुगे तस्मिन् दिव्ये वर्षसहस्रके निःशेषास्तु भविष्यन्ति सार्धं कलियुगेन तु स सन्ध्यां सेदु निःशेषे कृतं वै प्रतिपत्स्यते यदा यन्द्रश्च सूर्यश्च तथा तेश्य बृहस्पती एकराशौ भविष्यन्ति तदा कृतयुगं भवेद् येष वंशक्रमकृष्णकीर्तितो वो यदा क्रमं अधीता वर्तमानाश्च तथैवनागदाश्च ये महानन्दाभिषेकान्दजन्म यावत्परीक्षितः एतद्वर्षसहस्रं तु ज्ञेयं पञ्चाशदुत्तरं प्रमाणं वै तथा वक्तुं महापद्मोत्तरं च यद् अन्तरं च शतान्यष्टौ षट्त्रिंशच्च समास्मृताः एतत्कालान्तरभाव्यमन्धान्दाद्याः प्रकीर्तिताः भविष्यैस्तत्र सङ्ख्यादा पुराणज्ञै श्रुतार्षिभिः सप्तर्षयस्तदाप्राप्ताः पित्र्ये पारीक्षिते शतं सप्त विंशतैर्भाव्या अन्ध्राणां तेऽन्वयाः पुनः सप्तविंशतिपर्यन्ते कृष्णे नक्षत्रमण्डले सप्तर्षयस्तु तिष्ठन्ति पर्यायेण शदं शतं सप्तर्षीणां युगं त्वे दिव्यया सङ्ख्यया स्मृतं मासाद्दिव्या स्मृता ष दिव्याब्दाश्चैव सप्तही तेभ्यः प्रवर्तते कालो दिव्यसप्तर्षिभिस्तु तैः सप्तर्षीणां तु यौ पूर्वौ दृश्येते उत्तरादिशि तयोर्मध्ये च नक्षत्रं दृश्यते यत्समं दिवि तेन सप्तर्षयो युक्ताज्ञेया व्योम्नि शतं समाहा नक्षत्राणां ऋषीणां च भोगस्यैतन्निदर्शनं सप्तर्षयो ह्यथा युक्ता काले परीक्षिते शतम् अन्ध्रांशे स चतुर्विंशे भविष्यन्ति शतं समाहा प्रजाभृशम् अनृतोपहता सर्वा धर्मदः कामतोऽर्धतः श्रौदस्मार्थे प्रशिथिले धर्मे वर्णाश्रमे तदा शङ्करं दुर्बलात्मा न मोहिताः संसक्ताश्च भविष्यन्ति शूद्राः सार्धं द्विजादिभिः ब्राह्मणा शूद्रयष्टारशूद्रा वै मन्त्रयोनयः उपस्थास्यन्ति तान्विप्रांस्तदा दौर्वृत्यलिप्सवः दा। लवाल्लवं दृश्यमाना प्रजा सर्वाक्रमेण तु क्षयमेव गमिष्यन्ति क्षीणशेषा युगक्षये यस्ो दिव्यस्त दिने प्रतिपन्न कलियुगस्त संख्या निबोधत सहस्राण सदी तीनी मनुषसख्य ष्टि चहस्राणी वर्षाण तूच्य दिव्य वर्ष सहस्रम तो सन्ध्यांशे हि कीर्तिते निःशेषे च तदा तस्मिन्कृतं वै प्रतिपत्स्यते येलश्चेक्ष्वाघुवंशश्च सह भेदैप्रकीर्तितौ इक्ष्वाकोऽस्तु स्मृदं क्षत्रं सुमित्रान्दं विभस्वदः ऐलं क्षत्रं क्षेमकान्दं सोम वंशविदो विदुः किर्ति ये ते विवस्वतः पुत्रा कीर्तिधा कीर्तिवर्धनाः अधीता वर्तमानाश्च तथैवानागताश्च ये ब्राह्मणाः क्षत्रिया वैश्यशूद्राश्चैवात्र ये स्मृताः युगे युगे महात्मानः समधीता सहस्रशः बहुत्वा बहुत्वानामधेयानां परिसंख्या कुले कुले पुनरुक्ति बहुत्वाच्च न मया परिकीर्तिता वैवस्वदं तरेख्यस्मिन्न ह्यस्मिन्न निमिवंश्यः समाप्यते एतस्यां दुयुगाख्यायां यदः क्षत्रं प्रपश्यते तथा ही कथयिष्या गो मे निबोधदेवापि पौरव राजा ऐक्वाकुशो मू महाबलोदापग्राम ये दौ क्षत्र प्रणेदारौ चुशे चुर्युगे सुवर्चा नामपुत्रस्तु इक्ष्वाकोस्तु भविष्यदि नवविंशे युगे शोध वंशस्यादिर्भविष्यदि देवापेश्च सपौलस्तु एलादिर्भविता नृपः क्षत्रप्रवर्तकौ ह्येतौ भविष्येदे चतुर्युगे एवं सर्वत्र विज्ञेयं सन्तानार्थेदुलत्रणं क्षीणे कलियुगे तस्मिन्भविष्येदकृते युगे सप्तर्षिभिस्तुतैः सार्धमाद्ये युगे पुनः गोत्राणां क्षत्रियाणां च भविष्येदे प्रवर्तकौ द्वापरांशेन तिष्ठन्ति क्षत्रिया ऋषिभिः सह भविष्ये तु काले कृतयुगे पुनः बीजार्थं ते भविष्यन्ति ब्रह्मक्षत्रस्य वै पुनः एवमेव तु सर्वेषु तिष्ठन्ती हासुरेषु वै सप्तर्षयो नृपैः सार्धं सन्धानार्थं युगे युगे क्षत्रस्यैव समुच्छेदसम्बन्धो वै द्विजय स्मृतः मन्वन्तराणां सप्तानां सन्तानश्च श्रुतश्च ते परस्पराद्युगानां च ब्रह्मक्षत्रस्य चोद्भवः यथा प्रवृत्तिस्तेषां वै प्रवृत्तानां क्षयः सप्तर्षयो विदुत्तेषां दीर्घायुष्ट्वाद्भवा भवौ यदेन क्रमयोगेन ऐलेक्ष्वाक्वन्वयाद्विजाः उत्पद्यमानाश्रेधायां क्षीयमाणा कलौ पुनः अनुयान्ति युगाख्यां दु यावन्मन्वन्तरक्षयः जामदग्न्येन रामेण क्षत्रे निरवशेषिते कृतेयं सङ्कुला सर्वा क्षत्रियैर्वसुधाधिपैः द्वीपं शकारणञ्चैव कीर्तयिष्ये निबोधत ऐलस्येक्ष्वाघुनन्दस्य प्रकृतिः परिवर्तते राजानश्रेणिबद्धास्तु तथान्ये क्षत्रिया नृपाः येलवंशस्य ये ख्यादास्तथैवेक्ष्वाकवो नृपाः तेषामेकशतम्पूर्णं कुलानामभिषेकितं तावदेवधुभोजानां विस्तरोद्विगुणस्मृतः भजदे त्र्यंशकं क्षत्रं चदुर्धात् सद्यधा दिशं तेष्वतिदासमानाये ब्रुवतस्तान्निबोधद शतं वै प्रतिविन्ध्यानां शतं नागासहैहयाः धृतराष्ट्रश्चैकशतमशीतिर्जनमेजयाः शतं च ब्रह्मदत्तानां सारिणां वीरीणां शतम् तदशदं तु पौलानां श्वेदकाश्य कुशादयः तदो सकस्रं वै येति दा ईजिरेश्चाश्वमेधैस्ते सर्वे नियुतदक्षिणैः एवं राजर्षयोधि सहस्रशः मनोर्वैवस्वदस्यास्मिन् वर्तमानेऽन्तरे तु ये तेषां निबोधतोत्पन्ना लोके सन्ततय स्मृताः न शक्ये विस्तरस्तासां सन्ततीनां परस्परं तत्पूर्वापरयोगेन वक्तुं वर्षशतैरपि अष्टाविंशद्युगाख्यास्तु गदा वैवस्वदेन्दरे यदैराजर्षिभिः सार्धं षष्ठायास्ता त्रयश्चैव सहराजभिः युगाख्याना युगाख्यानावशिष्टास्तु तदो वैवस्वतक्षयः यदध्वकथिदं सर्वे समासव्यासयोगदः पुनरुक्ति बहुत्वा च न शक्यतु युगैः सह ये पञ्चवंशा विशांसिताः कीर्तिताश्च व्यधिधा ये ये लोकान् धारयन्त्युद लभते च वरान् पञ्च दुर्लभानिक लौकिकान् आयुकीर्तिं धनं पुत्रान् स्वर्गं चानन्त्यमश्नुदे धारणाश्रवणा चैव पञ्चवंशस्य भीमतः इत्यशवो मया पादस्तृतीयकथितो द्विजाः विस्तरेणानुकुर्या च किं भूयो वर्णयाम्यहम् इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धादपादेवंशानुवर्णनं नाम चतुस्सप्ततितमोऽध्यायः ओम्